हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे चतुर्दश सर्गे कैकय राज्ञा सत्ये दृढतरावस्था माय प्रेरणम् निज प्रार्थी तवरपूर्ते तम्प्रति दुराग्रह प्रकटनञ्च अन्तपुरद्वारमागत्य वसिष्ठेन सुमन्त्रस्य भारराज सन्निधो प्रेषणम् राजानया स्मन्त्रस्य श्रीराममानयितुम् ततो गमनञ्च पुत्रोकादितम् पाप वितन्यम् पतितम् भुवि विशिष्टमानम् उत्प्रेक्षे ऐक्ष्वाकम् इदम् अब्रवीत् पापम् कृत्वैव किमिदम् मम संश्रू च संश्रवन् शेषे क्षितीतरे तन् तिथातुम् त्वमर्हसि आहु सत्यं हि परमं धर्मं धर्मविदोजनय सत्यमाश्रित्य च मय तं धर्मं पतिचोदितः संस्कृत्य शैव्य शयिनाय स्वान्त जगति पतिः प्रदाय पक्षिणे राज जगमे गतिमुत्तमम् तथा हि यलर्क तेजस्वी ब्राह्मणे वेदपारगे याचमाने स्वके नेत्रे उद्धृत्या ददो सरितां तु परि स्वल्पां मर्यादां सत्यमन्वितहे सत्यानुरोधात् समये सामनाति वर्तते सत्यमेकपदं ब्रह्म सत्ये धर्म प्रतिष्ठिते सत्यमेव क्षयवेदय सत्ये न अवाप्यते परम् सत्यं तमनुवर्तस्व यदि धर्मे धृतामपि स वरे सफलो मे तु वरदो यसि सप्तम धर्मस्यैवाभिकामार्थं मम चैवभिचोदनाय प्रव्राजय सुसंग्रामम् श्रीकालु तं प्रवीम्यहम् समयं च ममार्येमं यदि तं न करिष्यसि अग्रतस्ति परित्यक्ता परित्यक्ष्यामि जीवितम् एवं प्रचोदितो राजा कैकय्य निर्विशङ्कय नाशकपाश मन्मोक्तुम् बलेरिन्द्र कृतं यथा उद्भ्रान्त हृदयश्चापि विवर्णा वदनो भवेत् स धुर्यो वै परिपन्नन् युगचक्रान्तरं विकलाभ्यां च नेत्राभ्याम् अपश्यन्निव भूमिप कृष् धैर्येण संस्तभ्य कैकैमिदमब्रवीत् यस्य मन्त्रकृदपाणि अग्नोपापे मया धृते संत्यजामि स्वयं चैवै तव पुत्रम् सह स्वय प्रयातार्जुनी देवी सूर्यस्य उदयनं पति यही अभिषेका जनह सरष्यु राषेक संभारी तदर्थ नपकल रो मे हो तलिल सपुत्र तैयार सलिलता से शुभचारे यदि राषेचनम नक्तोस्म्युम दृष्ट पूर्व तथा मुखर्चम तथ नुख ब्रुवत तस्मिप महात्म प्रभासा शर्वी पुण्य चंद्र नक्षत्र मलिनी तथा पाप सचार कैकय पार्थिव उवाच परुषं वाक्यम् वाक्यन्या रोष मूर्छिता किमिदं भाषसे राजम् वाक्यं गररुजोपमम् अनायायत्कृष्टम् पुत्रम् रामम् हरसि स्थाप्य राजे मम सुतम् कृत्वा रामम् वनेचरम् निसपत्नां च मां कृत्वा कुर्ता कृतगुच्यो भविष्यसि स सुन्नैव दीक्षेति क्षेणये प्रचोदेन योतमये राजा प्रचोदितो भीक्ष्णम् कैकय्या कै वाक्यम् अब्रवीत् धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतनाय ज्येष्ठं पुत्रम् प्रियं रामं द्रष्टुमिच्छामि धार्मिकं तत् प्रभातां उदिते च दिवाकरे पुण्ये नक्षत्र योगे च मूर्ते च समागते स्वशिष्ठुणसम्पन्न शिष्य परिवृत तथा उपगृह्य सुसंभार पुरोत्तमम् शिक्षा सम्मार्जितपथाम् पताकमभूषिताम् पता संवृत् मनुजोपेताम् समृद्ध विपणापणाम् महोत्सवे समायुक्ताम् राघवोऽर्थे समुत्सुकाम् चन्दना गुरुधूपे सर्वत परिधूमि मां तां समतिक्रम्य पुरन्दर पुरोपमां ददर्श्यान्तपुरं श्रीमान् नानाध्वज गुणायुतं ब्राह्मणैरुपशोभितम् यस्ति मद्भिः सुसम्पूर्णम् तदस्वै परमासितये तदन्तः परमासाद्य व्यतिचक्रमतं जनम् वसिष्ठ परमप्रीते परमर्षिभिरभूतः स त्वपश्यद् निष्क्रान्तं सुमन्त्रं नाम सारथिं द्वारे मनजसिंहस्य सचिवं प्रियदर्शनम् तम् उवाचे महतेजा सुतपुत्रं विशारदम् वदिष्ठे क्षिप्रमाचक्ष् नृपतेर्मां ह्य गतम् इमे गङ्गोदकघटाः सागरेभ्यश्च भद्रपीठम् अभिषेकातमाहृतम् सर्वबीजानिगन्धा च रत्नानि विविधानि च शर्द्रम् दधी भूतम् लाज दर्मासु मनस पय अष्टोचकन्या वरवारणः चतुरश्चोरत श्रीमन् निस्त्रिंशो वाहनम् नरसंयुक्तम् छत्रम् च चे सन्निभम् च्वेत्रे बृङ्गारं च हिरण्मयम् हे मदामपि नद्ध कुत्मान् पाण्डुरो वृषे केसरी चतुर्दश हरि श्रेष्ठ महाबलः सिंहासनं जाग्रतनुः समिधश्च उताशर सर्वे वातितृसङ्घा च वेश्याचालङ्कृता श्रियः आचार्या ब्रह्मणागावे पुण्या च मृगपक्षिणः पौरजाना फलश्रेष्ठमा च गणेशः एते चान्ये च बहवै प्रियमाणा प्रियं मदय अभिषेकाय रामस्य प्रतिष्ठन्ति पार्थिवे पस्वे महाराजं यथा समुदिते हरि पुष्ये नक्षत्रयोगे च ज्यम वपनुयात चु्वा सतुत्र महबल स्व नृपयतीवेशनम द्वारा मत न से कोरोधुम चि केशव सीपस्थि राजमस्था निवान् त्वाग् परमतुष्टाभिः अभिष्टोतुं पञ्चक्रमे ततः श्रुतो यथा पूर्वं पार्थिवस्य निषेवने सुमन्त्रे प्राञ्जलिर्भूस्व तु वगति पतिम् यथा नन्दस्य तेजस्वी सागरो भास्करोदये प्रीत प्रीतेन मनसा तथा इन्द्रमस्यां तु वेलायाम् अभितुष्ट मातरी सोजेदानवान् सर्वान् तथा त्वां बोधयाम्यहम् वेदासह विद्या च यथायात्मा ब्रह्माणं बोधयन्त्यज तथा त्वां बोधयाम्यहम् आदित्य चन्द्रेण यथाभूत धरां शुभं बोधयत् द्य पृथिवीम् तथा त्वां बोधयम्यम् उत्तिष्ठ सुमहाराज कृत कौतुकमङ्गलः विराजमानो वपुष मेरोरिव दिवाकरः स्वमसूर्योचकाकुत्थ शिव वै शवणावपि वरुणैश्चाग्नीन्द्र च विजयं प्रदिशन्तु गता भगवती रात्रि कृतम् कृत्यम् विदन्तवे बुद्ध्यस्वनु प्रजादूल गुरुकार्यमनन्तरम् वदतिष्ठतरामस्य समग्रम् अभिषेचनम् पौरजान् पदा चापि नैगम च कृताञ्जलिः स्वयम् अतिष्ठो भगवान् ब्राह्मणैः सह क्षिप्रम् आज्ञाप्यताम् राजम् यथा ह्यपाल पशवो यथा सेना ह्य नायक यथा चन्द्रम् विना रात्रि यथा गावो विना वचम् एवम् हि भविता राष्ट्रम् यत्र राजा एवम् तस्य वच श्रुत्वा शान्तपूर्वम् ीर्यत शोकेन भूयैव महीपति ततस्तु राजा तं सूतं तन्नश्च दम्पती शोकरक्ते क्षणश्री माम् उद्विच्यो वाच धार्मिक वाक्यस्तु खलु मर्माणि मम भूयो निकुन्तसि सुमन्त्रै करुणम् श्रुत्वा दृष्ट्वा दीनम् च पार्थिवम् गृहीताञ्जलिः किञ्चित् तस्मात् देशात् पराक्रमः यदा वक्तुं स्वयं दैन्यान् न शाकमहीपति तदा सुमन्त्रं मन्त्रन्या कैकेयी पत्युवाच सुमन्त्र राजा रजनीं रामः च समुत्सुकः प्रजागरे परिश्रान्तु निद्रा वा त्वरितं सुत राजपुत्रं विशस्विनम् रामम् मानय भद्रं ते नात्र कार्या विचारण स श्रुत्वा राजवचनम् कथं गच्छामि भामि तच्छ्रुत्वा मन्त्रिणो वाक्यम् राजा मन्त्रिणमब्रवीत् सुमन्त्रम् द्रक्ष्यामि शीघ्रम् मानय कल्याणम् नन्द च निर्जगाम च स प्रीत्या त्वरितो राज चासन सुमन्तश्चिन्तया मास त्वरितं चोदितत्वया व्यक्तं रामाभिषेकार्थे विहायास्यति धर्मराट् इति तुतो मतिं कृत्वा हर्षेण महता पुनः निर्जगामय महतेजा घवस्य दिदृक्षय सागरे हृद सङ्काशात् सुमन्त्रुभ निष्क्रम्य जनसंवादम् दर्श द्वार मतः ततः पुरस्ता सा विनि श्रुतो महीपते द्वार गतान् विलोकयन् दर्श पौरान् विविधान् महागणान् उपस्थितान् द्वार द्वारमुपे इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारी अयोध्याखण्डे चतुर्दश स्वर्ग श्री सीता रामचन्द्रार्पणमस्तु